कालीन सायङ्कालीनमन्त्रः ॐ यज्जाग्रतो दूरमुदैति दैवं तत् सुप्तस्य तथैव इति दूरङ्गमम् ज्योतिषाम् ज्योतिरेकम् तन्मे मनः शिवसङ्कल्पमस्तु ॐ येन कर्मान्यपशो मनीषिणो यद्ये कृण्वन्ति विदधेषु धीरः यदपूर्वम् यक्षमन्तः प्रजानाम् तन्मे मनः शिवसङ्कल्पमस्तु ॐ यत्प्रज्ञानमुत चेतोद्धृतिश्च यज्ञ्योतिरन्तरमृतम् प्रजासु यस्मान्न हृते किञ्चन कर्म क्रियते तन्मे मनः शिव सङ्कल्पमस्तु ओम् इदम् भूतं भुवनं भविष्यत्परिगृहीतमृतेन सर्वम् येन यजस्तायते सप्त होता तन्मे मनः शिव ॐ यस्मिन् द्विचः यस्मिन् प्रतिष्ठिता रथनाभाविवाराः यस्मिंश्चित्तम् सर्वमोतं प्रजानां तन्मे मनः शिव सङ्कल्पमस्तु सुसारथिरश्वानि वयन्मनुष्यान्नियतेभेषु भीर्वाजिन इव हृत्प्रतिष्ठम् यदजिरं जविष्ठम् तन्मे मनः शिव सङ्कल्पमस्तु ॐ शान्तिः शान्तिः शान्ति, ही, शान्ति, ही, शान्ति ही।